सुवर्गाय वा एतानि लोकाय होजन्दे यन्दाः क्षणानिद्बाभ्याङ्गारह प्रत्ययजो जिद्विपाद्यजमानः प्रतिष्ठित्याग्नेः ध्वेजः अन्तरिक्षयवाक्रमते सदोऽभ्यैति सुवर्गमेवैनं लोकङ्गमयति सौरेभ्या मद्भ्याङ्गारह प्रत्येजोत्यमुमेवैनं लोकमं समारोहयति नजपत्यर्चाग्नेः ध्वेजहादि सुवर्ग स्य लोकस्याभिनीत्यै दिवं गच्छ सु हिरण्यगुं हृत्वर्गमेवैनं लोकङ्गमजिरूपेण वो रूपमभ्यैमीत्याह रूपेण सागुं रूपमभ्यैति यद्धिरण्येन पृथो मित्रस्य पथा नयेत्या हशान्त्यऋतस्य पथा प्रेतचन्द्रदक्षिणादित्याः सत्यं वा ऋतगुं सत्येनैवैनादितेन विभजति यज्ञस्य पथा सुता यज्ञस्य ह्येताः पथायन्ति यद्दक्षिणाभ्रां मद्यैषवैब्रांश्रुमान्त श्रव्यं परिक्षमित्याह सुवर्गमेवै नङ्ग गङ्गमयति यतस्म सदस्यैरित्याहमित्रदेवत्रागच्छद मधुमतेः प्रदाता नमापि सतेत्याहमयमिह प्रदाता वस्मोहस्मान्मत्र मधुमतेरापि सते दिवा वै ददाह हिरण्यं ददा जिज्योतिर्वै हिरण्यं ज्योतिरेव पुरस्ताद्भत्रे सुवर्गस्य लोकस्यानुख्यात्या अग्नि यज्ञमुखानेणादि ब्रह्मण ददाति दि प्रसूच्चेहोत्रे ददात् आत्मा वा येष यज्ञस्य यद्भोतात्मानमेव यज्ञस्य दक्षिणादिस्समर्थयति समिष्टयजोगुं षिजुहोति यज्ञश्च समिष्ट्यै यद्वै यज्ञश्च क्रोरै यद्विलिष्टञ्जत्यधिजन्नात्यधिगदति करोधिजन्नापि करोति तदेव दैः प्रेणाधिनवजुहोधि नव वै पुरुषे प्राणाः पुरुषेण यज्ञः संवितो जावानेव यज्ञस्तं प्रेणातिषडृग्मिरानिजुहोतिषब्दा ऋतव ऋतोनेव प्रेणातित्रिनयजोगं क्षित्रयजिमे लोकायिमानेव लोकान् प्रेणादिजज्ञ ज्ञपदिं गच्छाह यज्ञपदिमेवैनं गमयति स्वां योनिं यज्ञो यज्ञपदे सहसोप्रवाकसुवीरयत्याह यज्ञपता विति सहोवाच यज्ञवता विति सत्याद्विसृन्दयाः परा बभूवरिति होवाच यज्ञे वा यज्ञः प्रतिष्ठाव्यासे यजमानस्यापराभावायति दवातुम् वित्त्वा गातुमित यज्ञदेव यज्ञम् प्रतिष्ठापयति यजमानस्यापराभावाय अपवद सयजोगं शिजुहा जयदेवार्वाचीनमेकहाय नादेनः करोदितदेवतैरवयज देवोभृसमवैर्येत्यप्सु वै वरुणः साक्षादेववरुणमवयजदेव अन्वित्य यज्ञगुं रक्षातुं सिजिघातुं सन्ति साम्ना सावेपहत्यै त्रैति त्रोकालो हन्ति पुरुषः पुरुषो निधनमुपैति पुरुषः पुरुषो हि रक्षस्वी रक्षसामपहत्याह प्रतिष्ठिते सदन्ते राजन्भिरजः सहस्र नित्याः भेषजमेवास्मै करोत्यधिष्ठितो वरुणस्य वाचयित्याह वरुणपाशमेव भिजह बाहुते अथो अग्निवत्यैव जहात्यपरिषः प्रजा यजति प्रजावे बलिः प्रजायैव वरुणपाषान्मुञ्चत्याज्यभागौ यजति यज्ञस्यैव चक्षुषेनां तदेति वरुणै यजति वरुणपाशादैवेन मुञ्चत्यज्ञे वरुणौ यजति साक्षादेवेन वरुणवासान्मुञ्चत्यपबलिषावनो यादौ यजति प्रजावे बलिहि प्रजायैव वर्णभा चतुरः प्रजाजां वे गण्डाजवत्याह यथोदितमेव वरुणमपजते समुद्रेदे हृदयसन्तरित्याह समुद्रेण सन्त्वापि सन्तोषधीकृतापदित्याहाद्यरेवै नमोषधे देवीरापजेर्भयत्याह यथा यजुरेवेद प्रशवापि सोमो िन्दूनां भक्षजेत्पशुमान् स्याद्वरुणस्त्वेन गृह्णेदाद्यन्न भक्षेत पशुस्यान्यैनं वरुणो गृह्णे राजुमस्पृश्यमेव पशुमान् भवतिनैनं वरुणो गृह्णादि वरुणस्य पाषदित्याह वरुणपाशादेव निर्मोक्ष्यते प्रदेक्षमायन्ति वरुणस्यान्दर्हित्याशेषोऽस्ये महेत्याः समथेवाग्निमस्यन्त उपायन्ति ते ज्योषिते जोमहि मन भत्ते क्षोकं विनोतमेवस्य सम्भौ मिनोच्युभयो लोकजाजित्या उपरसंवितां विनुजाककामश्च रशनसंमितां मनुष्यबालकामस्य शशाकसंहितामिन्द्रजकामस्य सर्वाः त्रयो मध्यमास्तान् समान् पशुकामस्त्यैकान् तस्य विनयादुत्तरार्ध्यं वसीदानं समेरामिज्यस्तैवं विनोचिता च क्रमेज दक्षिणार्झ्यं वर्षष्ठं विनुयात् सुवर्गगामस्ते ी यागुं समाक्रमणमेव तस्य देवस्य लोकस्य समष्टै यदेकस्मिन् द्वे रसने परिं यजितस्मादेकौ द्वे जाय विन्दते रण्णैकागुन्दशनान्द्वयोरूपयोः परिंव्यजितस्मान्नैकाम्बते लङ्कामजे तस्य जायतेत्युपान्ते तस्य व्यतिषजे स्वास्य जायते लङ्कामजयुमारस्य जायते त्यान्तस्य प्रवेष्टयेत्पमानेवास्य जायते सुभाविदेवान्दक्षिणत उपानयन्तान् देवा उपशये देवापानुदन्त तदुपशयस्योपशयत्यक्षिणत उपशय उपशये भ्रातृविजापलोक्ति सर्वे वा अन्ये उपाः पुशुमन्तो चोपशय देव पशुस्तस्य यजमानः पशुर्यन्निर्दिशेदातिमाच्छेद्यजमानोऽसौ देव निर्दिशेद्यं द्विष्ट्याद्यमस्मैस्ते पशुरिति ब्रूजान्न पशो न हिनस्ति नारण्यान् प्रजापदि असृजतसोन्नाद्यतस जयतामेकादशिने रुन्धे यदेकादशस्तन एवास्यैषुषये वेदान्तज्रोवा एषा सम्मीयते यदेकादशिनीशेश्वरा पुरस्ताः प्रत्यञ्चम् यज्ञकम् संवर्धितोर्यत्वाः क्रीमतम् विनोति यज्ञस्य प्रत्युत्तैष प्रजापतिः प्रजा, प्रजा असृज तसानो मञ्जदस जेतामेतादश देमपश्च आजुरिन्द्रियं वीर्यमात्मन्न धत्त प्रजा इव खलु इव जलेशैकादश मे हवत्याजुरेवन्द्रियं वीर्यं यजमान आत्मन्धत्ते प्रयमा त्यागवतिरेतसौति प्रजनयति वौष्णेन रुणत्वाय मारुणो मध्यत ऐन्द्रमालभतमध्यत एवेन्द्रियमाने पुरस्तादेन्द्रस्य वैश्वदेव मालभत वैश्वदेवं वा अन्नमन्नमेव पुरस्ताद्धरस्तादन्नमध्यत ऐन्द्रमालभ्य मारुदमालभते विद्वै मरुदो विषमेवास्मा अनुबध्नादेति कामयेतयोगः स्वोपरुध्यताञ्जोपरुध्वस्वोपगत् सत्वित्तेन्द्रस्य स्य लोके वारुणमालभेद वरुणस्य लोक ऐन्द्रयदेवापगतस्वोपरुध्यते लोपरुद्धस्सोपगच्छति यदि कामजेतत् प्रजामुह्ये युरितिमशोन्यति सजेत् प्रजादेवमोहयदभिवाहलोपां वारुणमालभेद प्रजावरुणो गृह्णेयान्दक्षिणतमुदन् च मालहदेव वाहलोपां प्रजानामवरुणग्राहाया इन्दुपत्नी रामनमजां परिकृतामुदसृत्यं पराभवन्तै यजमानो न परा भवति यदा जैनपात्ने पदकं सर्गस्थापयति यज्ञस्य प्रतिष्ठित्यै यज्ञं प्रतिष्ठन्तजमानो प्रेष्ठवीष्टम् बाचेष्टम् वशयाथ पात्नी मते न प्रचलति तीर्थ एव प्रचलत्यथो देतस्येवास्य जामस्वाष्ट्रो भवति त्वष्टा मेलेतसिक्तस्य पूपाणि विकरो रूपाणि विकरोति घनन्ति वा एतत् सौम्यं यदभि शृण्वन्ति यत् सौम्यो भवति यथामृतायामस्तरणे घ्नन्ति पातृगेव तद्यदुत्तराद्य आत्मानमेव पवयन्ते य आत्मानन्नपरि पश्येति दासः स्यादभिगतिम् कृत्वा वेः क्षेततस्मिन् न्यात्मानम् परिपश्य आत्मानमेव पवयते यो गतमना स्यात् सोवेः क्षेतजन्मे मनःपरागतम् यद्वा ज्ञा सो मेद्वयमस्मासु धारयामसे निमनदेवात्मन्दाधारणगतमनाभवत्यपवेज तेजसवने यज्ञस्त्रामति जानादने जानमध्याज्ञः सर्वा देवता विष्णु यज्ञो देवतास्त्यैव यज्ञं च दाधारो पापुंसु याय ब्रह्मवादिनो वदन्ति मित्रो यज्ञस्य स्पृष्टं युवदेवरुणो दुरिष्टं क्व दरिह यज्ञ ष्पजमानो भति त्रिजन्मैः वरुणे भषामालभज नेत्रैव यज्ञस्य स्पृष्टं शमयति वरुणेन दुरिष्टन्नात्यमाच्छति यजमानो यसा मे गाङ्गल नोर्वं प्रभिन्दन्त्येव मृत्सा मे यज्ञं प्रभिन्दो जन्मैःत्रावरुणे भसामानभज यज्ञायैव प्रभिन्नाय मत्यमन्मवाः श्रीशान्तितया मानिवा जयस्य रुणेम् भा मालभते छन्दायस्येव पुनराप्रेमात्रावै वरसं दृधाति देवापादिन्द्रियम् वीर्या जतों सौर्येणोपस्तम्भनं वाचेतव्यज्ञस्य यदति ग्राह्याश्चक्रे पृष्ठा निजपृष्टेन गृह्णेदात्माञ्च यज्ञं पृष्ठानसगं स्तस्य हविजस्यादिग्राह्यान्धयित्यप्रोमे ग्रही कविजा यज्ञश्च न्तानम् जावृतमगच्छन्ते देवा एतजेतान्तानगृह्णीन्द्रमिन्द्रो वैदेशजेते ग्रहादिह्यन्तेः व्यावृतमेव पाप्मनाभ्या तिरुजेन गच्छ दीने लोका ज्योतिष्मन्तः समावद्वीर्याः कार्यादित्याहुरात् नेनास्मिन् लोके ज्योतिर्धटन्द्रेणान्तरिक्ष इन्द्र वायो हि सयुजौ सौर्येणामुष्मन् लोके ज्योतिर्धत्ते ज्योतिष्मन्तोऽस्मा इमे लोक्याथमन्ति समालभ्येरिजानेनान्दुरुतान् वैग्रहाण् वित्तान्तामे लोगाः पराहन्तश्चार्वान्तश्च चस्टा प्रापरुजस्ते इवं विदुषजेतेष्यन्त प्रास्मादि मे लोगाः पराहन्तश्चार्वान्तश्च चस्टा भान्ति देवा वै यद्यज्ञे कुर्म तदसुरा अकुर्म ते देवादाः ज्ये छन्दातुंसि समनानि समस्थापयन्ततो देवा अभवन् वरासुरायस्यैवम् विदुषोदाभ्यो दृश्यते भवत्यात्मनाः स्य भ्रातृविजो भव जयद्वै देवा असुरायदाह्येनादभ्रवन्त ददाभ्यस्यादाध्यत्वम् यं येन दभ्रात्येन भ्रातृविजन्मेन भ्रातृविजोदभ्रान् त्येता वै प्रजापतेरति मोक्षिणी नामोर्यस्य गन्धात्यधिमुक्त्या भ्रातृमिजमुच्यते य एवं वेदघ्नन्य वा एतत् सोमं यदभिषुण् सोमे हन्यमाने यज्ञो हन्यते ब्रह्मवादिना वदन्ति किं तद्यज्ञे यजमानः कुरुते स्वर्गं ग्रहो वा ग्रन्था विजयन्तमेवं सुगम् वा गङ्गमयति विवाजय तद्यज्ञम् छन्दन्ति विददाहार्यसज्ञ स्थापयन् अगुंशोऽनपि सृजति यज्ञस्य सम्पत्ते हा न गृह्णतस एतं प्रजापति गृह्णाति मनय वे प्रजापते प्रजापतेरात्यादुम्बरेण गृह्णात्योर्ग्वा उदुम्बरवोर्ध्वे वारुन्धे चतुस्व स्यागत नृह्णात्यागत नवामेत भवति गृह्णार्धय दुभाग्रान्नता दुभाभ्यामृध्येता नवानं गृह्णाति सैवास्यर्हिरण्यमभिर्जनित्यमृतं मे हिरण्यमायुः प्राण आयुषेवामृतमभिधिनोदिशतमानं भवति सदायुः पुरुणः सतेन्द्रिय आदुश्चैव प्रतिष्ठति क्षिदत्तक्षोडश्च भवन्न वै षोडशी नाम यज्ञोः स्त्रिजद्वाम षोडशस्तोत्रगुं षोडश स्वर्गो लोको न प्राभवत्तंशोडशि नो वेदेभवद्य छोडशे लिष्यते स्वर्गस्य लोकस्याभिजित्या इन्द्रो वै देवानामानुजाभरजापधिमुपाझावत्तस्मादेत पुं षोडशिनं प्रायच्छत्तमगृह्णी तततो वे सोऽग्रं देवगानां पर्येद्यस्यैवं विदुष षोडशे विष्यदेग्रमेव समानानां पर्ये स्म देवै पशुकालस्य गृह्णेयात् वज्रोमेषोडशी पशवस्तृतिरं वज्रे नैवास्मै पशो नव गृह्णे नय दुःखीयात् प्रजां पशो शुकामस्य गृह्णे वज्रो वज्रेणैवास्मै पशो नोपरिष्टाच्छत्यष्टोमेवाजन्यस्य गृह्णेना व्यावृत्कामोहिराजन्यो यजते सान्ध एवास्मै वज्रं गृह्णातिशयेन वज्रोभूत्याेस्तोत्रम्भवति प्रजक्षित्यै हरिवत्सस्य धजिन्द्रस्य प्रियन्धो ो वानोति कनीजागं शिवे देवैन्दाविस्याविस्य सुरे सुरे देवाः कनीकसाछन्दसाध्यायच्छन्दो चत्वारि पूर्वाण्यवकल्पयन्ति पददेव पशूनवरुन्धे द्वे उत्तरे द्विपददेवावरुन्धे नष्टुभमपि सम्पादयन्ति वान् वा अनुष्टुप्तस्माः प्राणानाम् पादुत्तमा समगाव्यशिते सूर्ये षोडशिनस्तोत्रमुपागले तस्मिन् वै लोक इन्द्रो मित्र महान् क्षादेववज्रम्भातॄजाय प्रहत्यरुणभिषङ्गो स्वो दक्षिणैतद्वैवद्रस्य लोपविम् समृद्ध्यै हरिः